गरुडपुराणं ब्रह्मकाण्डं मोक्षकाण्डम् अध्यायं फोर् श्रीकृष्णा उवाच यथा ससर्जभगवां स्त्रीन् गुणान् प्रकृतेस्तदा लक्ष्मीस्त्रिरूप सम्भूता श्रीर्भूर्दुर्गोदिसंज्ञिदा सत्त्वाभिमानिनी श्रीस्तु भूर्देवी रजमानिनी तमोऽभिमानि दुर्गा ह्येव माहुर्मनीषिणः अन्तरं न विजानीया द्रूपाणां च परस्परं गुणानां चैव सम्बन्धा दुर्गादीनां कगेश्वरा अन्तरं ये विजानन्ति ते यान्ति अन्तमः परम् पुरुषस्तु त्रिरूपो भूद्विष्णुर्ब्रह्मा भवेदिशः सत्त्वेन लोकान्वर्धयितुं विष्णुः साक्षाद्धरि स्वयं सृष्टिं कर्तुं च रजसा ब्रह्मणि प्राविशरिः अद्यो, ब्रह्मास विज्ञेयो न तु साक्षाद्धरिस्वयम् समसापि समान् हन्तुम् रुद्रे च प्राविशद्धरिः रुद्रे स्थितो रुद्रसञ्ज्ञो न रुद्रस्तु हरिस्वयं विष्णुरेव हरिसाक्षात् तावो भौ न हरि स्मृतौ आविष्टरूपौ विज्ञेयौ ब्रह्मरुद्राभिधायकौ एवं ज्ञात्वा मोक्षमेधि नान्यधातुकदञ्जन विष्णुब्रह्मादिरूपाणामैक्यं जानन्ति ये, विष्णु ये द्विजाः ते यान्ति नरकं घोरं पुनरावृत्तिवर्जितं गुणत्रयं प्रविष्टस्तु पुरुषो हरिरव्ययः पार्योन्मुखं यदा भूयात्क्षोभयामास वै तदा जातक्षोभाद् भगवतो महानासीद्गुणत्रयाद गुणत्रये विद्यमानात् भागान् देवनसंशयः महदो ब्रह्मवायु च जज्ञादे पाभिमानिनौ तस्य संवत्सरात् पश चाद्यमलौ संबूवधुः रजप्रधानं यत्तत्त्वं महत्तत्त्वमिदीरिदं सर्गं त्वमि सर्गं त्वमं विजानीयाद्गुणवैषम्यनामगं गरुड उवाच महत्तत्त्वस्वरूपस्य ज्ञानार्थं देवगीसुधा त्वयो कदा गुणवैषम्यनामिका सृष्टिरुत्तमा गुणवैषम्यशब्दार्थम् मम ब्रूहि महाप्रभो श्रीकृष्ण उवाच गुणवैषम्यशब्दार्थज्ञापनाय खगेश्वर अभीक्षितम् च तत्रादौ गुणसाम्यम् न संशयः सम्यक् ज्ञापयितुम् तत्र तावत् स्वगेश्वर शिभूतं गुणानां तु दर्शयिष्ये वै राशीभूतस्य तस् मत्सकाशाद्विनतासुधा राशीभूतं रजो द्विगुणं तत्तु राशिभूतस्य रजस सकाशाद्विनतासुधा राशिभूतं तथा सत्त्वं द्विगुणं समुदाहृदम् मूलप्रकृतिजाह्येदे न मूला प्रकृतिस्मृदा यथ प्रकृतिरूपाणां परिच्छेदो न विद्यते अथ प्रकृतिजाज्ञेया प्रकृति खगेश्वर एवं तव गुणानां च परिमाणं खगेश्वर उक्तं स्वरूपं तेषां तु तव सम्यक् खगेश्वर रा तत्र राशित्रये सत्त्वम् केवलम् समुदाहृदम् रजस्तमोऽभ्याम् गरुडह्यविमिश्रम् ह्यतस्तु तद केवलम् सत्त्वमित्युक्तम् न दुःश्रेष्ठत्वदप्रभो सृष्टिकाले केवलम् स्यात् प्रलये मिश्रितम् भवेद सर्वदाप्यविमिश्रम् च सत्त्वराशिम् खगेश्वर सर्वदापि विमिश्रम् च सत्वराशिम् द्विजोत्तम ये विजानन्ति ते सर्वे विशन्दिह्यधरम् तमः रजस्तमो गुणौ वीन्द्रयितराभ्याम् विमिश्रितौ सृष्टौ प्रलयकाले विमिश्रावेव कबेश्वर राशिभूदेभिरजसि रजो भागाच्चदाधिकम् सत्वं च मिश्रितं ज्ञेयं नान्यथा पक्षिसत्तम रजस्तदभागानां मध्ये दुविनदासुदा य एको भाग उद्दिष्टस्तावत् परिमिदं तमः राशिभूदेभिरजसि मिश्रितम् परिकीर्तितम् रजो राशिस्थितित्वेवं तादव्याप्तं तमो गुणैः राशिभूदेवी तमसि सत्वं च विनतासुधा तम सकाशाद्गरुडदशभागाधिकनजा मिश्रितम् भवतीत्येवम् ज्ञातव्यम् नात्र संशयः तमसो दशभागानाम् मध्ये दुविनदा सुधा रजः राशिभूतेऽपि तमसि मिश्रितम् भवति सत्वां सा ह्यधिका सन्धित्येवमुक्तं मया नख तत्र मे संशयो ह्यस्ति शृणुत्वं सात्वदां पदे यद्राश्यां प्रभो श्रुत्वा सगरुडो श्रुत्वा स्वगरुडेनोक्तम् भगवान् पुरुषोत्तमः उवाच परमप्रीत्या संस्तुवन् गरुडं हरिः श्रीकृष्ण उवाच रजो राश्यातमो राश्या सत्त्वराश्यधिका राश्या सदा मिश्रितम् चाविपक्षीन्द्र न स तव कीर्त्यदे रजो राशिस्तमो राशिरित्येवम् विबुधा विदुः विषम् तु चरुदुग्धग्धम् विष मेत्युच्यते यथा एवमयोक्ता गरुडगुणानाम् निजसंस्थितिः साम्यावस्थाम् गुणानाम् च श्रृण्विदानीम् कगेश्वर राशीकृता च यच्च कगेश्वर महत्तत्त्वे प्रविष्टम् च यद्रज परिकीर्दितम् प्रलये समनुप्राप्ते महत्तत्त्वे स्थितम् रजः द्वादशांशेन तुह्यध्या विभक्तम् भवतिम् प्रभो राशीभूदेहि सत्त्वे द्दशभागेन मिश्रितम् सम्यग्भवति पक्षीन्द्रतथैकांशेन जाण्डजा च भवत्येव न अन्येनैकेन भागेन रजोराश्याखगेश्वर मिश्रितम् भवतीत्येवम् ज्ञातव्यम् नान्यदा क्वचिदर् गुणत्रयेऽपि भगवान् महत्तत्त्वस्य चान्दजा एवं लयस्तु ज्ञातव्यो हृदितत्त्वार्धवो दिभिः एवम् गुणत्रयाणाम् च मिश्रितत्वात्खगेश्वर गुणसाम्यमिति जानीहि वैभव अन्यथा ये विजानन्ति ते गरुड उवाच राशीकृतगुणानाम् च त्रयाणाम् परमेश्वर विशालानाम् प्रलये गुणसाम्यदा कदम् ब्रूहि महाभाग एतत्तत्त्वम् समासदः उवाच राशीभूतगुणानाम् तु त्रयाणामपि सत्तम तदा विमिश्रितत्वेन ह्यवस्थानम् विदुर्बुधाः इदानीम् गुणवैषम्यम् शृणु सम्यग् मम प्रिय सृष्टिकाले यत्पूर्वम् प्रलयेखग दशभागैश्च सत्त्वे तु मिश्रितम् सप्तमस्यप्येकभागेन प्रविष्टं यत्तु तद्रजः रजस्यप्येकभागेन प्रविष्टं यच्च तद्रजः एवं द्वादशभागैश्च प्रविष्टं सर्वस्यो रजः सत्त्वस्तैर्दशभागैश्च तथैकेन रजवंशिना एवमेकादशैर्भागैस्समस्तांश्येन वैद्विज मिश्रितं भवति ह्यद्धा महत्तत्त्वं तदा स्मृतं ये तदन्यो विशेषश्च मन्तद्ध्यो विनदासुध एकांशस्तामसोज्ञेयो महत्तत्त्वो महत्तत्त्वेन संशयः एवं त्रयोदशैर्भागैर्मिश्रितं तच्च सत्तमः येवमे एवमेतद्विजानीयान्नन्यधाधुकदञ्जन गरुड उवाच चतुर्मुखाच्छ्रुतं पूर्वं भगवन् सात्त्वदाम्पदे चतुर्भागात् समुत्पन्नं महत्तत्त्वमिति प्रभो तत्रैकांशस्तमप्रोक्तस्त्रिभागो रज एव च तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकं चतुर्भागात्मकं प्रोक्तं महत्तत्त्वं श्रुतं मया त्रयो दशां शै सम्भूतमिति प्रोक्तं त्वया नख तदेतत्संशयं चिन्ति कृपालो भक्तवत्सल श्रीकृष्ण उवाच ब्रह्मोक्म्यमयोक्तस्य विवादो नास्ति सर्वदा मूल सत्वे मिश्रित दश भागे नद्रज तत्सव को कौ भागस्तुद मूले रजसी यचोक्त रजो भाग भगेश्वरा, भागे द्वितीय विज्ञेयद्रजो न संशय मूले तमसी यच्चोक्तो रजो भागस्त तृतीयभागो विज्ञयो नात्र कार्याविचारणा तथा मूले च तमसिख्ये को भागस्तमस्मृदः एवं त्रिभागो रजस एकांशस्तमस स्मृदः तदा हुर्ब्रह्मणो गरुड उवाजा महत्तत्त्वस्य चत्वारो भागास्तेषु रजस्त्रयः तमः विद्व्ययोक्तं गरुडध्वज रजो भागात्मको देहो ब्रह्मण परमेष्टिनः यदि प्रती यदे ब्रह्मन्वचनास्तवमाधव शुद्धसद्वात्मको देहो ब्रह्मण परमेष्टिनः एवं हि श्रूयदे कृष्ण संशयो मेत्र बाधते तमेवं संशयं छिन्दी यदि तच्छ्रोधुमर्हति श्रीकृष्ण उवाज त्रिभागभूते रजसि तथा द्वादशधाभिज रजसोपेक्षया सत्त्वं दशांशाधिकमेव च प्रविष्टमस्तीति खगज्ञातव्यम् तच्छृणुद्विज तमसोऽपेक्षया सत्त्वं दशांशाधिकमेव च प्रविष्ट मस्तीखग वाक्तव्यम् नात्र संशयः तमसोपेक्षया तत्र तम एकादशम् स्मृतम् एकांशस्तु रजोज्ञेयमेव माहुर्मनीषिणः एवं च मिलितान् वक्ष्ये शृणु महामदे महत्तत्त्वसमुत्पत्ता उपादानम् खगेश्वर त्रयो दशांशा विज्ञेयाद्वादशांशम्रजस्मृदम् एकांशस्तमस्वज्ञे यस्तत्र भागान् शृणुद्विजा आदौ धुद्वादशांशेषु भागान्नुवक्ष्यामि तच्छृणु एकांशस्तमस्वज्ञे यस्तद्दशांशाधिकम्रजः पच्चतांशाधिकं सत्त्वमेव माहुर्मनीषिणः एकांशतमसिख्येवं विभागांशृणुसत्तम एकांशस्तु रजो ज्ञेयस्तमोह्येकादशाधिकं तमोभागास्तु विज्ञेयस्तद्दशांशाधिकस्मृदः सत्त्वभाग यदि ज्ञेयो महत्तत्त्वोकगेश्वर सत्त्वांशो बहुलो चतुर्मुखः उत्पत्तिर्म तच्चोक्त एवं च विनदासुदा तज्ज्ञानान्मोक्षमाप्नोदि नान्यधातु यदि श्रीगरुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे ब्रह्म स्वरूप साम्य गुणवैषम्यभेदब्रह्मदेहस्वरूपगुणसाम्यनिरूपणं नाम चतुर्थोऽध्यायः ओम् अध्यायम् फैव् एतादृशे महत्तत्त्वे लक्ष्म्या सह हरिः स्वयं प्रविवेशमहाभागक्षोभयामास वैहरिः तस्मा अकन्तत्वमभूतस्मा ज्ञानद्रव्यप्रियात्मकम् अहङ्कारसमुत्पत्तावेकांशस्तमसि स्मृतः तद्दशांशाधिकरजस्तद्दशांशाधिकं प्रभो सत्त्वमित्युच्यते सद्भिर्ह्ये ददात्मा त्वं स्मृतम् अकन्तत्वाभिमानी तु आदौ शेषो बभूवः सहस्राब्दाच्च पश्चात्तौ जादौ खगहरौ द्विज अहन्तत्वे खगह्येषु प्रविष्टो हरिरव्ययः शोभयामास भगवाल्लक्ष्म्या सह हरिः स्वयम् वैकारिकस्तामसश्च ृद्धा बभूव रुद्रोऽपि यतस्तेषां नियामकः वैकारिक रुद्रो नियाम वैकारिक इति तामसे दुस्थितो रुद्रस्तामसो तैजसे दुस्थितो रुद्रो लोके वैतैजस स्मृदः तैजसे दुःख्यपन्दत्वे लक्ष्म्या सह हरि स्वयम् विशित्वा क्षोभयामास तदासौ दशधात्वभूद श्रोत्रम् चक्षुस्पर्शनम् च रसनम् घ्राणमेव च पायुश्च उपस्थेदि दशस्मृताः वैपारिके क्यकन्तत्वे प्रविश्य क्षोभयद्धरिः अदाविन्द्रियाणां च देवताः एकादशविधा आसन् क्रमेण दुःखगेश्वरा मनोभिमानी नीह्यादौ वारुणी त्वभवत्तदा अनन्तरं च सौवर्णी गौरोजापि तथैव च दशवर्षादनन्तरम् उत्पत्तिरिति विज्ञेयम् क्रमेण दुःखगेश्वर मनोभिमानिना वन्याविन्द्रकामौ प्रजज्ञु प्रजज्ञदुः तार्श्यह्यनन्तरौ ज्ञेयौ मुक्तौ संसार एव च तदस्त्वगात्मा ह्यभवत्सोहं कारिक गीरिदः तदपाण्यात्मकाश्चैव जज्ञिरे पक्षिसत्त्वम शची रथिश्चा निरुद्धस्तथा स्वयम्भुवो मनुः बृहस्पतिस्तथा दक्ष यदेपाण्यात्मका स्मृताः दक्षस्यानन्तरं जज्ञे प्रवाहो नाम चाण्डजा स एवोक्तश्चान्दिम्बाहो याप यत्यात्मचोदितः हस्तादनन्तरं ज्ञेयो नदु शच्यादिवत् स्मृदः तदो भवन्महाभाग चक्षुरिन्द्रियमात्मनः स्वायम्भुवमनोर्भार्याशदरूपायमस्तथा चन्द्रसूर्यौ तु चत्वारश्चक्षुरिन्द्रियमानिनः चन्द्रश्रोत्राभिमानीदि तथा ज्ञेयत्फगेश्वर जिह्ेन्द्रियात्मा वरुणसूर्यस्यान्नन्त सूर्यस्यानन्तरो भवद वागिन्द्रियाभिमानिन्यो ह्यभवन्वरुणादनु दक्षपत्नीप्रसूतिश्च भृगुरग्निस्तर्तव च तत्र वैदे महात्मानो वागिन्द्रियनियामकाः यक्रव्या दाद यश्चोक्ताश्चनन्तत्वनियामकाः साम्यक्त्वाश्च तथैवोक्तिर्न तु तत्त्वाभिमानितः उपस्तमानिनो वीन्द्र विश्वामित्रो वसिष्ठोत्रिर्मरीचि पुलः क्रदुः पुलस्त्योङ्गिरसश्चैव तदा वैवस्वतो मन्वादयोऽनन्दसङ्ख्या उपस्थात्मान ईरिदाः पायोश्च मानिनो वीन्द्रजज्ञिरे तदनन्तरम् सूर्येषुद्वादशस्वेहो मित्रस्तारा गुरो प्रिया कोणाधिपो निरृतिश्च प्रवाहप्रिया चत्वारयदे प्राणाभिमानिन सर्वे जनिरे द्विजसप्तम विश्ववसेनो विश्वप्सेनो वा युगुत्रौ ह्यश्विनौ गणपस्तधा वित्तपः सप्तवस्व उक्तनिस्तथाष्टमः सत्यानाम् शृणुनामानि ध्रोणप्राणो अर्के दोषस्तथा वस्कः सप्तमस्तु विभवसुः दशरुद्रास्तदाज्ञेया मूलरुद्रो भव स्मृदः दशरुद्रस्य नामानि शृणुष्वद्विजसप्तम रयीवन्ते यस्तदा भीमो वामदेवो वृषा कविः अजैकवादहिर्बुध्न्यो बहुरूपो महानिधि दशरुद्रा यदि प्रोक्ता षडादित्याच्छृणुद्विज गुरुक्रमस्तदा शक्रो विभस्वान्वरुणस्तथा पर्जन्यो दिबाहुरेद उक्ता पूर्वम् द्विजोत्तम पर्जन्यव्यतिरिक्तास्तु पञ्चैवोक्दानसंशयः गङ्गा समस्तु पर्जन्य इति चोक्तखगेश्वर चत्वारिंशत्तथा सप्तमहदपरिकीर्तिताः द्वा भुक्ता विधिविज्ञेयो प्रवहो दिवस्तथा तथा दशविधाज्ञेया विश्वे देवाः कगेश्वर शृणु द्वौ प्रदुदक्षेदि संज्ञकौ द्वौ सत्यवसु संज्ञौ च कामकालकसंज्ञकौ एवं दशविधाज्ञेया विश्वे देवा प्रकीर्तिताः तथा ऋभुगणश्चोक्तस्तथा च पिदरस्त्रयाः। द्यावापृथिव्यै ये ते जषडशीदयः देवा प्रजत्निरे सर्वे नासिकद्रियमानिनः आकाशस्याभिमानीदुगणपः सुदा स्फुतः उभयत्राभिमानीदिज्ञेयम् तत्त्वार्थवेदिभिः विश्वक्सेनम् विना सर्वे जयाद्या विष्णुपार्षदाः अभवन् समहीनाश्च विश्वक्षेनादनन्तरम् येदे विनासिकायाश्च अवान्तरनियामकाः अदत्ते तत्त्वमानिभ्यो ह्यवराक्ते प्रगीर्दिताः स्पर्शतत्वाभिमानीदु अपनश्चेत्युदाहृदः रूपाभिमानी सञ्जज्ञे व्यानो नाम महान् प्रभो रसात्मक उदानश्च समानो गन्धनामकः अपाम्नाथाश्च चत्वारो मरुद परिकीर्तिताः जयाद्यनन्दरान् वक्ष्ये समुत्पन्नान् भगेश्वर प्रधानाग्रे प्रथमजपावगः समुदाहृदः भृगोर्महर्षे पुत्रश्च च वनः समुदाहृदः बृहस्पतेश्च पुत्रस्तु दध्य रैवतश्चाक्षुषश्चैव तदा स्वारोचिष स्मृदः उत्तमब्रह्मसावर्णि रुद्रसावर्णिरेव ज देवसावर्णिसा वर्णिरिन्द्रसावर्णिरेव ज तथैव दक्षसावर्णिर्धर्मभावर्णिरेव च तदनन्तरमुत्पन्नास्तेभ्यो नीजा शृणुद्विजा वरुणस्य पर्जन्याख्यो विभावसुः यमभार्या श्यामला दुह्यनिरुद्धप्रिया विराड ब्रह्माण्डमानिनी सैव ह्युषा नाम्ना सुशब्दिदा रोहिणी चन्द्रभार्योक्ता सूर्यभार्यादुसञ्ज्ञाका षडू संख्या जज्ञिरे विनदासुदा गङ्गाद्यनन्तरं जज्ञे स्वाहा वै मन्द्रदेवद स्वाहानामग्निभार्योक्ता गङ्गादिभ्योऽधमाश्रुदा स्वाहानन्तरज्योज्ञे यो ज्ञानात्मा बुद्धनामकः बुद्धस्तु चन्द्रपुत्रो यत् स्वाहाय अधमस्मृदः उषा नाम तदा यज्ञे बुधस्यानन्तरम् भग उषा नाम वामिनी दुःख्यस्विभार्या प्रकीर्तिता बुधा धमासा विज्ञेयाना प्रकार्या विचारणा तदशनैश्चरो जज्ञे पृथिव्यात्मे दिविश्रुदः उषा धमस्तु विज्ञेयस्तदो ज्ञेधपुष्करः कर्माभिमानि विज्ञेयशनैश्चर इदीरिदः तत्त्वाभिमानिनो देवानेवं सृष्ट्वा हरिस्वयं प्रविवेशस देवेशस्तत्त्वेषु रमया सः श्री श्रीगारुड् इति श्रीगारुडे महापुराणे ब्रह्मकाण्डे तत्त्वाभिमानि देवतोत्पत्तितत्तारतम्य निरूपणं नाम पञ्चमोऽध्यायः ओम्